हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमदध्यात्मरामायणे किच् किन्धाकाण्डे नवमः सर्ग श्रीमहादेव उवाच गते विहाय स गृध्रे राजेवानरपुङ्गवः हर्षेण महताविष्टा सीता दर्शनलाल सह ऊषु समुद्रम् पश्यन्तु नक्रचक्र भयं करम् तरङ्गादिभिरुन्नद्धम् आकाशमिव दुर्ग्रहम् परस्परम् अवोचन् वै कथमेन तरामहे उवाच चाङ्गध तत्र तृणुध्वम् भवन्तो चन्दबलिनः शूराश्च कृतविक्रमः को वात्र वा रिधिम् तीर्त्वा राजकार्यम् करिष्यति एतेषाम् वानराणां स प्राणदाता न संशय तदुत्थैष्ठतु मे शीघ्रम् पुरतो यो महाबलः वानराणाम् च सर्वेषाम् रामसुग्रीवयोरपि स एव पारको भूयान् नात्र कार्या विचारणा इत्युक्ते युवराज्येन तृष्णीम् वानरसैनिकः आसन्नोचु किञ्चिदपि परस्पर विलोकिनः अङ्गद उवाच उच्यतां वै सर्वे प्रत्येकं कार्यसिद्धये केन वा साध्यते कार्यम् जानीमस्तदनन्तरम् अङ्गदस्य एव च श्रुत्वा प्रचुर्वीरा बलं योजनानां दशारभ्य दशोत्तर गुणं जगुः च दर्वा प्राहे मध्येव न कथाम् पुरात्री विक्रमे देवे पादम् भूमानलक्षणम् त्रिसप्तकृतोऽहमगणम् पदक्षीण विधानतः इदानीम् वाधकग्रस्तु न शक्नोमि विलङ्घितुम् अङ्गदोऽप्यहमे गन्तुम् शक्यम् पारम् महोदधे पुनर्लङ्घन सामर्थ्यम् न जानाम्यस्ति वान वा तम्बाह जाम्बवान् वीर तं राजा युनो न युक्तम् त्वां नियोक्तुम् मे तं समर्थोऽसि यद्यपि सङ्गत उवाच एवं चेत् पूर्ववत् सर्वे सस्यामोदर्भविष्टरे केनापि न कुतम् कार्यम् जीवितुं च न शक्यते तम्बाह जाम्बवान् वीरो दर्शयिष्यामि ते सुत येनास्माकम् कार्यसिद्धि भविष्यति अचेण च इत्युक्त्वा जाम्बवन्तः हनुमन्तम् अवस्थितम् हनुमन् किम् दहस्तूष्णीम् स्थीयते कार्यगौरवे प्राप्तज्ञेनैव सामर्थ्यम् दर्शयद्य महाबल तत् वायुतुल्य पराक्रमह रामकार्यार्थमेव तम् जनितोऽसि महात्मनः जातमात्रेण ते पूर्वम् दृष्ट्वाद्यन्तम् विभावसु पक्वम् फलम् वृक्षान्विति उत्प्लुतम् बालचेतया योजनानाम् पञ्चशतम् पतितोऽसि ततो भुवि अत को वा शक्नोति वर्णितुम् उत्तिष्ठय कुरु साम रामस्य कार्यम् नः पाहि सूरत श्रुत्वा जाम्बुधु वाक्यम् हनुमान्नतिहर्चितः च कारणादम् सिंहस्य ब्रह्माण्डम् स्फोटयन्नि वै पर्वताकार त्रिविक्रम इव परः लङ्घयित्वा जलनिधिम् कृत्वा लङ्काम् च भस्मसात् रावणम् सकुलम् हत्वान् नेशे जनकनन्दिनीम् यद्वा बद्ध्वा रज्वा रावणम् वामपाणिना लङ्काम् स पर्वताम् धृत्वा रामस्याग्रे क्षिपाम्यहम् यद्वा धृष्ट्वैव यास्यामि जनकीम् शुभलक्षणाम् श्रुत्वा हनुमतो वाक्यम् जाम्बवानिदमब्रवीत् दृष्ट्वे वा गच्छ भद्रम् ते जीवन्तिम् शुभाम् पश्चाद् रामेण सहितो दर्शयिष्यसि भावृशम् कल्याणम् भवताद्भद्र गच्छ विहाय स गच्छन्तम् रामकार्यार्थम् वायुस्त्वामनुगच्छतु इत्याशीर्भिः समामन्त्रय विसृष्ट प्लवगाधिपै महेन्द्राद्रीशिरो बभूवाद्भुतदर्शनः महानगेंद्रे प्रतिमो महात्मा सुवर्णवर्णो ऋणचारु वक्त्र महापणीन्द्र भुनि सुदीर्घ बाहु वातात्मजो द्रुविष्यत सर्वभूतै इति श्रीमदध्यात्मनामायणे उमामि श्रुतंवादे किष्किन्धाकाण्डे नवमः सर्गः समाप्तः